तैत्त्रिय आरण्यः सप्तमप्रश्नप्रारम्भः शन्नो निद्रः शं वरुणः शं नो भवत्वर्यमा शन्नरेन्द्रो बृहस्पतिः चन्नो नो विष्णुरुक्रमः चन्न नमो ब्रह्मणे नमस्ते वा त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि घृतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ओम् शाम् दिशाम् तिश्रान्तिः मात्राबलम् मसन्तानः इत्युक्तस्येक्षाध्यायः सह नौ यशः स ह नौ ब्रह्मवर्चसम् रथातः स गुंहिताया उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रथमध्यात्मम् इत्याचक्षते अथाधिलोकम् पृथिवीपोर्वरूपम् जौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धालम् यत्यधिलोकम् अथाधिज्यौतिषम् अग्निःपोर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतःसन्धालम् यत्यधिज्यौतिषम् अथाधिविद्यम् आचार्यः पोर्वरूपम् अन्तेवास्युत्तररूपम् यद्यासन्धिः प्रवचनगुंसन्धानम् यद्यधिविद्यम् तथाधिप्रजम् मातापोर्वरूपम् यतोत्तररूपम् प्रजासन्धिः प्रजनलगुंसन्धानम् यद्यधिप्रजम् तथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुम्हिताः य एवमेतामहासगुम्हिता व्याख्याता वेद सन्धीयते प्रजज पशुभिः ब्रह्मवसेनाद्येन सवर्वेण लोकेन यच्छन्दसामृषभो विश्वरूपः छन्दोभ्योऽभ्यमृतात्सम् बभूव समेन्द्रो मेधयास्पृणोतु अमृतस्य देवधारुणो भो यासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्वम् ब्रह्मणः कोशोऽस् मेधयापिहितः श्रं मे गोपाय आवहम् देवि तन्वाना कुर्वाणा चीरमात्मनः वासागुंसिमगावश्च अन्नपाने सर्वदा ततो मे श्रियमावह पशुभिः सह स्वाहा आमायन्त्वब्रह्मचारिणः स्वाहा हिमायन्त्वब्रह्मचारिणः प्रमायन्तु ब्रह्मचारिण स्वाहा दमायन्तु ब्रह्मचारिण स्वाहा शमायन्तु ब्रह्मचारिण स्वाहा यशो जने सा निः स्वाहा श्रेयान् सस्यसो सा निः स्वाहा त्वन्ताभगप्रविशानि स्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहन्त्वयीवृजे स्वाहा यथापः प्रवतायन्ति यथा मासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व भोर्भुवस्वहरिति वा एतास्तिस्राव्याहृतयः तासा महस्मिताम् चतुर्थीम् माहाचमस्यः प्रवेदयते मह माहा तद्ब्रह्म स आत्मा अङ्गा अन्येवताः भोरिति वा अयम् लोकः भुवलित्यन्तरिक्षम् सुवरित्यसौ लोकः महरित्यादित्यः सर्वे लोका महीयन्ते भूरिति अग्निः भुवजिति वायुः सुवरित्यादित्यः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भोरिति वार्चः भुवलिति सामाने सुवरिति यजोगुंषि महलिति ब्रह्म ब्रह्मणा वावसर्वे वेदा महीयन्ते भोरिति वै प्राणः भुवलित्यपानः सुवरिति व्यानः महलित्यन्नम् अन्नेन वाव सर्वे प्राणामहीयन्ते ता वा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृदयः तायो वेद स वेदब्रह्म सर्वेस्मै देवा बलिमा वहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नजम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके यदेशस्तन इवावलम्बते सेन्द्रयोनिः यत्रासौके शान्तो विवर्तते व्यपोह्यशीर्षकपारे भोरित्यग्नौ प्रतितिष्ठति भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आकाशशरीरम् ब्रह्म सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धमृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् द्योर्दिशो वान्तरदिशाः अग्निर्वाजुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय इत्यधिभूतम् थाध्यात्मम् प्राणोद्यानोपान उदानः समानः चक्षुश्रोत्रम् मनो वाक्त्व चर्ममागम् सर्गः सा वास्थिमज्जा एतदधिव्यधाजर्षिरवोचत् पाङ्क्तम् वा इदगम् सर्वम् पाङ्केनैव पाङ्क्तः स्पृणोतीति ओमिति ब्रह्म ओमिति इदगम् सर्वम् ओमित्येतदनुकृति हस्मवा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्यः प्रतिघनम् प्रति गृह्णाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मणः प्रपक्ष्यन्नाह ब्रह्मोपात्मवानिति ब्रह्मैकोपा आप्नोति ऋतञ्चस्वाध्यायप्रवचने च सत्यम् च स्वाध्यायप्रवचने च तपश्च स्वाध्यायप्रवचने च दमश्चस्वाध्यायप्रवचने च शमश्चस्वाध्यायप्रवचने च अग्नयश्च अतिथयश्च स्वाध्यायप्रवचने च मानुषम् च स्वाध्यायप्रवचने च प्रजा च स्वाध्यायप्रवचने च प्रजनश्च स्वाध्यायप्रवचने च सत्यमिति सत्यवचारासीतरः तपहिति तपो नित्यः पौरुषिष्टिः तद्धितपस्तद्धिरवः अहम् वृक्षस्य वेरिव कीर्तिः पृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनेव स्वमृतमस्मि द्रविडघुम् समर्चसम् सुमेधामृतोक्षिरः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्चाचार्योऽन्तेवासिनमनुषास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियन्धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्सीः सत्यान्न प्रमथितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भोद्येन प्रमथितव्यम् स्वाध्यायप्रवचनाभ्यान्न प्रमदितव्यम् देवपितृकार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि न इतराणि यान्यस्माकगुंसुचरितानि तानि त्वयोपास्यानि न इतराणि एके चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धयादेयम् श्रियादेयम् ह्रियादेयम् भियादेयम् संविदादेयम् अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा युक्ता आयुक्ताः अलोक्षाधर्मकामा यथा ते तत्र वर्तेरान् तथा तत्र वर्तेथाः अथाभ्या आख्यातेषु ये तत्र ब्राह्मणाः सम्मर्षिणः युक्ता आयुक्ताः अलोक्षाधर्मकामा स्युः यथा ते तेषु वर्तेरान् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शं नो मित्रः संवरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शं नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिषम् तन्मामावीद तद्वक्तारमावीद आभीयन्माम् आवेद्वक्तारम् ओम् शान्तिः शान्तिः शान्तिः इति तैत्रिय आरण्यः सप्तमः प्रश्नः